अथ तृतीयकाण्डे पञ्चिमप्रश्नप्रारम्भः ओर्मा पश्चादपूर्णा पुरश्चादन्मच्छतः पौर्णमासेजिगाय तस्यान् देवादिसंवसन्त उत्तमेनाकेहमादयन्ता सत्यदेवाददर्भागते यममावास्ये संवसन् त्वामहित्वा सा न यज्ञम् विबुहे विश्वमारेनाथे सुभगे सुवीरम् निवेशनीशङ्गमनीवसो नाम् विश्वारूपाणि कसो न्यावेशयन्ति सहस्रपोषको सुखकारना मो प्रथमो वीर्ये नसो न्याजन्मतम् माध्यमूहिपोन्नमासन्निषे ताम् ब्रह्मणा वृद्धो स्फुतेन दित्याश्चाङ्गाज्ञेनादध ते दर्शपोर्णमासोऽहविरासी तथादित्या हेतो होमा वपश्यन्तावयोस्ततो वैदे दर्शपोर्णमासोपूर्णभन्धदर्शपोर्णमासा वा लभमान एतो होमो पुरस्ताः साक्षादेव दर्शपोर्णमासा वा लभते ब्रह्मवादिना वदन्ति तत्त्वै दर्शपोर्णमासा वा लभते रणलामं च प्रति लावं च विद्यादित्यमाभास्यायर्कन्ददनलामं गोर्णमास्ये प्रति ये नन्दप्रति रामं कोर्णमादीं गोर्वा मालभेदप्रति नाम मे नावालभेदामम भक्षीयमाणमन्व भक्षीयैम गुरसाद मास्या वै सरस्व मे वै नावालभे ममाप्याय मानमन्वाप्याविराग् ना वैष्णवमेकादशकपालं पुरस्तान् निर्लपेत् सरस्वत्यै जिरुगो सरस्वते द्वादशकपालञ्जलाज्ञर्वै यज्ञमुखै यज्ञमुखमेवं पुरस्ता यद्वैष्णव भवति यज्ञा वै विष्णुर्यज्ञमेवारभ्य प्रथम सरस्वत्यै जिरुग्भवति सरस्वते द्वादशकपाल मास्या वै सरस्वती पूर्णमारस्वान्नामेव ्राह्मादशकपालः सरस्वदेव मिथुनत्वा यः प्रजागावौ दक्षिणासृद्धि ो वा इन्द्रम् प्रत्यक्षन्नापश्यन्दम् वदिष्ट प्रत्यक्षमप्यत्से ब्राह्मणं दे वक्ष्यामिता प्रजा प्रजलिष्यन्देतरे पुरोहिता प्रजा प्राजाय ब्रह्माकार्य प्रैवजायते रश्मिरशिक्षयाक्षीन्वेत्या देवेभ्य एव यज्ञं राह प्रेतरसधर्मा यत्वा धर्मं मनुष्या वै धर्मा मनुष्येभ्य एव यज्ञं राहान्वितरसि दिवे त्वा्य एव लोकेभ्य यज्ञं राह विष्टं वृष्ट्ये त्वा वृष्टिं जिन्वेत्याह वृष्टिमेवावृन्वे प्रवास्यनुवासीत्याहमिधनत्वा योषिगुपसुभ्यस्वापुरो जिन्वेत्याहाष्टौ सभ एकादश एताहन्दो वै देवासेभ्य एव प्रजाभ्यस्वा प्रजा प्रजा अनुसन्तनोति नाशुभ्यस्वापुशो जिन्वेत्याः प्रजा एव पशो नोषधेभ्यस्थोषधे जिन्वेत्याहोषधेष्वेव पशुवन् प्रतिष्ठापयत्युक्त यत्तेन्द्रम् जिन्वेत्याः अभिजित्या अधिपतरसि प्राणायत्वा प्राणम् जिन्वेत्याः प्रजास्यैव प्राणान् दधादि त्रिभृतसि प्रभृतसेत्याहत्वाय सगो रोहोऽसि निरोहसेत्याः प्रजात्यैव सखो शिवेशस्य शिवस्यश्चिरसेत्याः प्रतिष्ठित्यै अग्निना देवेन पृतनाजयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रसन्धरेण साम् नामषट्कारेण वज्रेण कोर्भयां पादयाम्य वैनां प्रत्येनां भूमि लोके योऽस्मान्येन्द्रभयं विष्णो विष्णाक्रमेणाद्यनान् ग्रामामीन्द्रेण देवेन पृतनाजयामित्रैष्टभेन छन्दसा पञ्चदशेन स्तोमेन साम्नामषट्कारेण वज्रेण सह ेवेऽभिप्रदनागते न छन्दसा सत्पदशे न स्वामेन वामदेव्येन साम्नाषट्कारेण वद्रेणापरजानन्द्रेण सञ्जा वयकोसा दश्यामपृदञ्जितः प्रति वृत्ते अग्ने तेजस्ते नाहं तेजस्वी या ते ते ते ना ते भो यासंयुतेऽग्नेभे ते नाहं वृत्यस्वी भो यासंयुते अग्नेहरस्तेनाहमोहरस्वी भोयासम् हे दे देवायज्ञहनो यज्ञमुष पृथिव्यामध्यासदे अग्निर्मादेभ्यो रक्षदगच्छेम सुकृताभयम् आगन्मवित्रावरुणावरेण्यारात्रीणाम् भागो युवयोर्योऽस्ति आगन् गृह्णास्त्रगुरस्य लोके तृतीये पृष्ठे अधिरोचने दिवः हे देवायज्ञहनो यज्ञमुषान्तरिक्षेऽध्यासदे वायुर्मादेभ्यो रक्षदगच्छेम सुकृता रात्री क्षेमकृता भयम् तेनेन्द्राय समुखरस्युत्तमेन हविषा जातवेदः ेत्रमुदधयेमगोचाता नागुश्रीश्च यज्ञः न ना वै देवायज्ञमुषः सन्धित एषु लोकेष्मास दा आददानाविवत्सहायो ददादियो तस्य ये देवाय ज्ञानं पृथिव्यामध्यासते दे ये अन्तरिक्षे ये लोकागस्थेल्लोकमेत्येवन्दास्कन्दसा पञ्चकपालङ्करा ष्टागपालः कार्योऽष्टाक्षरागायत्री गायित्रोऽगायित्रस्य नैवैनछन्द्रमध्यैति पञ्चो याग्ये भवतः पाङ्गो यज्ञस्ते नैव यज्ञान्न इति सूर्यमादेवो देवेभ्यः पादभाव्यरन्दरिक्षाद्यमानोऽग् निर्मापादुचक्षुषः सक्षसूषसवितर्विष्णचर्षण एतेभिः सोमनामभिर्विधेमतेभिः सोमनामभिर्विधेमते अहम् वरस्तादहमवस्तादहम् ज्योतिषावितमापवारान्तरिक्षम् ते पिता भूदह गोसौर्यमभयतो ददर्शाहम्भूयासमुत्तमस्रमाना नामासमुत्रादान्तरिक्षात्रामतिरदृश्यावयातीन्द्रः प्रश्नौतु मरुतो वर्षयन्दोन्नम् भयपृथिवीम् भ्यञ्ज्येदम् दिव्यन्नपः स्य न देहीशानसृजादि एतेदादित्य एष रुद्रो यज्ञरोषधेष्कास्याक्लवादित्यञ्जुहोतिरुद्रादेव पशोनन्तर्दधात्यस ओषधेश्वापयित स्ते विश्वा स्वमिध्येया पृथिव्याम् परिषुतो देवायते यजमानाय शर्मा आशासा न सुवीर्य गौराय स्वो शक्यस्व श्रियम् बृहस्पतिना राया स्वगाकृतामह्यजमानाय तिष्ठा सन्द्वानस्यामिपयसाकृते न सन्द्वानस्याम्यपलोषधीभिः सन्तानह्यामि प्रजयाहमद्योपायमस्मेणस्पतिवेदिम् वर्णेन सीदतोमिस्वे लोके विशा इह सुप्रदिपसेतिमाग्ने सपत्नदम्भरनुगदाभ्यम् इमम् विष्यामि वरुणस्य वा शङ्घ्यपुरुध्नेतसविता सुकेतः साधुश्चनोदस्य लोके स्वनन्मे सह प्रत्या करोमि ृदे कृतस्य वामेरन् अग्निस्यैक्यर्मद्यन्द्रागोरुद्रावृष्टासि युवाना ममायु धर्मसभ्यो रुद्रेभ्य आदित्येभ्य विश्वेभ्यो देवेभ्य पन्ये जने गृह्णामि ज्ञाय पन्ये जने साधयामि विश्वस्य देविश्वास्वाग्ने वामेरन्तु विश्वारे श्रीयान् देवा देवे देवेभ्यो यज्ञशन्नस्मि सुन्मदेदमान आजिशस्वागुदास्वलक्रेष्ट्रागं दर्वमादिष्ठदानो तादस्यवत्मन निडएडिताः षत्कारो वै गायत्र्यैश्वरस्रुवरसेनावद्य सा अस्याहुदया भवन्ति तृतीयस्यातो दिविद्य तत्पर्णा भवत्तत्पर्णस्य वर्णत्वयस्य वर्णवै गृहोद्भवति सौम्याहुदया भवन्ति रिषन्देवाहुते देवा वै ब्रह्मन्नवन्त भव्लोक ब्रह्म वै पर्माविन्मरुतोन्न ब्रह्मैव विश्व पद्माविडश्वत्थायजो भवत्याश्वष्ट्रमेव विश्वप्रजापदुहोत्सायत्रा प्रत्यतिष्ठत्ततो गङ्गत पुदतिष्ठत्त वैगङ्गते थवा भवति प्रत्यैवास्याहृदयस्तिष्ठन्तिथा प्रै जायतैः सृजागोरूपै श्रीव गोरूपाश्रुचो भवन्ति सर्वाण्येवैनगोरूपाणि पशूनामुपतिष्ठन्तेनास्यापरूपमात्रयते यामगृहीताधिप्रजापदे त्वाच्योतिष्मदे च्योतिष्मङ्गं गृह्णामि रक्षाय दक्षमदेत्वान्तरिक्षाय त्वा पृथिव्ये त्वामेभ्यो न राज्ये प्राणाय त्वापानाय त्वाभ्यानाय त्वा सदे त्वा सदेत्वाध्यस्तोषधेभ्यो विश्वे भूतेऽभ्यो प्रजा अक्षिद्रा अजायुन्दरस्मै त्वा प्रजापते विभोधा मन्ये च दुष्मने च ध्वर्यश्चेजमानस्य देवतामन्तरितस्तस्यापत्यन्द्रहं दे गृह्णीया प्रजापतिः सर्वा देवता देवताभ्य एव ज्येष्ठ वा एष ग्रहाणाति सर्वासां वा एतद्देवतानागोरोपणीयदेश ग्रहो ये गृह्यते सर्वाण्येवैनगोरूपाणि पुशूनामुपतिष्ठन्तप्रजापते ज्योतिष्पन्दं गृह्णामेत्याह ज्योतिरेवैसमानानाङ्गैत्या हि देवदेवैदेवदास्ताभ्येवै सर्वाभ्य गृह्णात्यमेन्द्रमनैत्याः प्राद्यावत्यै प्राणाय त्वामानाय त्वेत्याः प्राणानेवजमाने ददादितस्मै त्वा प्रजापदये विभोजा वृह्ने ज्योतिष्पदे ज्योतिष्पन्दं जुहोमेत्याः प्रजापदस्य त्याज्यग्रहम् गृह्णीयात् तेजस्कामस्य तेजोवाच्यम् तेजस्वेव भवति सोम ग्रहाम् गृह्णीयात् ब्रह्मवत्यस कामस्य ब्रह्मवत्यसङ्गै सोमाः ब्रह्मवत्यस्यैव भवति दधिग्रहाम् गृह्णीयात् पशुकामस्योर्गदोर्पशमूर्त्यैवास्माम् पशो न वर्धे ृण्यन्त्य विश्वेदे त्रिफलम् स्वादो स्वादीय स्वादिना सृजासमत ऊषमधुमधुनाभियाधि प्रयामगृहीतो प्रजापतये त्वा तिष्ठम् गृह्णान्मेष देयानि ृष्यन्ते ज्येष्ठ्यमेव गच्छच्यभि जयति पञ्च कृष्यन्ते पञ्चदिश्वास्यैव नवनव कृष्यन्ते नव वै पुरुषे प्राणाप्राणानेव य प्रायणीये चोदयनीये दृश्यन्ते प्राणा वै प्राणग्रहा प्राणेरेव प्रयन्ते प्राणेरुद्यन्ते दशमेहम् गृह्यन्ते प्राणा वै प्राणग्रहा प्राणेभ्यः खलु वा एतत् प्रजायन्ते वामदेवीन्योनेश्यवदे दशमे खलु वामदेवीन्योनेश्यवदे यद् प्राणेभ्य एवदयन्ति हृदयम् देव्या भरता जातवेदसम् हव्यानो वक्षदा ऋषक अयमुष्यप्रदे वयोहोता यज्ञाय नीयते रवीवृतोष्यत्यवृतादिवजन्मनः सह तस्य हीयाम् देवो जीवातवे कृतः यदा यास्तापदे वजन्नाभा पृथिव्याधिवेदो मह्यज्ञे हव्यायवोढवे विश्वेभिश्वकदेवैरोर्नावन्दम् य साधुहो तत्सौ लोके च कृत्वा सहस्रम्भरस्तु अग्ने लोकस्य नस्तने तनो नाम प्रयच्छन्तेगोपाः अभित्वादेव्याणाम् ना। सदा वन्भागमीमहे महेद्यो पृथिवी च न इम यज्ञम् विवीक्षताम् विवृतान्नभरीमभिहे पुष्करादद्यधर्मा निरमन्थता विश्वस्य वागतः समग्जुः पुत्रै जयधर्वणः पुत्राहानम् पुरन्दरम् ेन भरतावसवित्तमम् आस्वेयो आजातम् जातवेदशप्रियकोशिशीतादिथ्यम् दिषु श्रे सुेषु वाचिनम् यज्ञेन यज्ञमैरिन्द्रेवास्तानि धर्माणि प्रथमान्या सन् इति तृतीयकाण्डे पञ्चमः प्रश्नः समाप्तः तृतीयकाण्डश्च समाप्तः